बालकाण्डं सर्गं त्रि श्रीमहादेव उवाच अधराजा दशरथश्रीमान् सत्यपरायणः अयोध्याधिपतिर्वीरसर्वलोकेषु विश्रुतः सोनपत्यत्वदुःखेन पीडितो गुरुमे वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीद स्वामिन्पुत्रा कदं मे स्युः सर्वलक्षणलक्षिताः पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते तदोब्रवीद्वसिष्ठस्थं भविष्यन्ति सुतास्तव चत्वार सत्त्वसम्पन्ना लोकपाला इवापराः शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम् अस्माभिस्सहितः पुत्रकामेष्टिं शीघ्रमाचर तथेदि मुनिमानीय मन्त्रिभिस्सहितः शुचिः यज्ञकर्मसमारेभे मुनिभिर्विदकल्मषैः श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट गृहाणपायसं दिव्यम् परमात्मानं, पुत्री देवन लक्ष पर संशय युतुवा पायस दत्वाे सौंदर्दे नल वे मुनिषादूल राजमनोरथ वसीष्यशंगाभ्या ददौ हवी कौसल्या सकेय अर्धमर्धत्न तत सु जगृध् पौत्रीक चरु कौसल्यागा ददौ तस्ता कैकेयी च स्वभागार्थं ददौ प्रीतिसमन्विता उपभुज्य चरुं सर्वा स्त्रियो गर्भसमन्विताः देवता इवरे रेजुस्ता स्वभासा राजमन्दिरे दशमे मासिकौत्सल्या सुषुवे पुत्रमद्भुतं मधुमास्ये सिदे नवम्याम् कर्के शुभे पुनर्वस्वर्क्षसहते उच्चस्थ ग्रहपंचकूषणी समाप्ते पुष्पृष्टिसमुले आविरासी जगन्नाथ परमात्मा सनातन नीलोत्पल्यामीसुर्भुज जलजारुण नेत्रुरकुंडलमंडि सहस्रा प्रदी अनुग्रहाख्य हृत्स्थेन्दुसूचकस्मिदचन्द्रिकः करुणारससम्पूर्णविशालोत्पललोचनः श्रीवत्सहारकेयूरनूपुरादिविभूषणः दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला हर्षाश्रु पूर्णनयना नत्वा प्राजलिरब्रवीद कौसल्यो वाचा देवदेव नमस्तेस्तु शङ्खचक्र गदाधर परमात्माच्युतो नन्तःपूर्णस्त्वं पुरुषोत्तमः वदन्त्यगोचरं वाचां बुद्ध्यादीनामदीन्द्रियम् ेदवादिनः सत्तामात्रं ज्ञानैकविग्रहं त्वमेव मायया विश्वं सृजस्यवसि हंसि च सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा करोषीवनकर्ता त्वं गच्छसी वन गच्छसि शृणोषि न शृणोषीव पश्यसीव न पश्यसि अप्राणोह्यमनाशुद्ध इत्यादिश्रुतिरब्रवीद समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसां जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः त्वं ममोदरसम्भूद इति लोकान् विडम्बसे भक्तेषु पारवश्यन्ते दृष्टं मेद्य रेघुत्तम संसारसागरेमग्ना पदि पुत्रधनादिषु भ्रमामि मायया तेद्य पादमूलमुपागदा देवत्वद्रूपमेदन्मे सदा तिष्ठदुमानसे आवृणोदु न मां माया तव विश्वविमोहिनी उपसंहरविश्वात्मन्नदोरूपमलौकिकं दर्शयस्वमहानन्दबालभावं सुकोमलम् ललितालिङ्कनालापैस्तरिष्याम्युत्कटं तमः उपसंहारविश्वात्मन्नदोरूपमलौकिकं दर्शयस्वमहानन्दबालभावं सुकोमलं ललितालिङ्कनालापैस्तरिष्यामुत्कटं तमः श्रीभगवानुवाच यद्यदिष्टं तवास्त्यम्ब तत्तद्भवधु नान्यथा अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः त्वया दशरथेनाहं तपसाराधिधः पुरा मत्पुत्रत्वाभि काङ्क्षिण्या तथा कृतमनिन्दिते रूपमे दत्वया दृष्टं प्राक्तनं तपः फलं मद्दर्शनं विमोक्षाय कल्पदे ह्यन्यदुर्लभं संवादमावयोर्यस्तु पढेद्वा शृणुयादपि सयादि मम सारूप्यं मरणे मत्स्मृतिं लभेत् इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोदः बालत्वेऽप्यनीलाभो विशालाक्षोदिसुन्दरः बालारुणप्रतिकाशो लालिताखिलोकपः अधराजा दशरथश्रुत्वा पुत्रोद्भवोत्सवम् आनन्दार्णवमग्नो सा वाययौ गुरुणा सह रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रु सम्प्लुतः गुरुणा कर्तव्यानि चकारसः कैकेयी कमलेक्षणा, सुमित्रायां यमौजादौ पूर्णेन्दु सदृशाननौ तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ सुवर्णानि च रत्नानि वासांसि सुरभिशुभाः यस्मिन्द्रमन्दे मुनयो विद्यया ज्ञानविप्लवे तं गुरुः प्राह रामेधि रमणाद्राम इत्यपि भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितं शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषदा। लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च द्वन्द्विभूय चरन्तौ तौ पायसां रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया चेष्टितैर्मुग्धभाषितैः बाले स्वर्णमयाश्व पर्णमुक्ताफलप्रदं कण्ठे रत्नमणिव्रात मध्यद्वीपिनकाञ्चितं कर्णयोस्वर्णसम्पन्नरत्नार्जुन सटालुकं षिञ्चानमणिमञ्जीर कडिसूत्रादैर्वृतम् स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् अङ्गणेरिङ्गमाणं तं तर्णका ननु सर्वतः दृष्ट्वा दशरथो राजा कौसल्यामुदे तदा भोक्ष्यमाणो दशरथो राममेहीदिचासकृद आह्व यत्यधिहर्षेण प्रेम्णा नायादिलीलया आनयेति च कौसल्यामाहसा सस्मिदा सुतं धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिं प्रहसन् स्वयमायादि कर्दमाङ्कितपाणिना किञ्चित् गृहीत्वा कवलं पुनरेव पलायते कौसल्याजननी तस्य मासि मासि प्रकुर्वती वायनानि विचित्रानी समलङ्कृत्य राघवम् अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा कर्णपूरांश्च विविधान् वर्षवृद्धौ च वायनं गृहकृत्यं दया त्यक्तं तस्य चापल्यकारणाद् एकदा रघुनाथोऽसौ गतो मातरमन्दिके भोजनं देहि मे मादर्नश्रुतं कार्यस्रया तथ लगुडेनाहनत्तदा शिक्यस्थं पादयामास गव्यं च नवनीतकं लक्ष्मणाय ददौ रामो भरताय यथा क्रमं शत्रुघ्नाय ददौ पश्चादधिदुग्धं तथैव च सुदेन कथिदेमात्रे हा कृवा प्रधति आगतालोक्याथ तद सर्व पलायिध्याम प्रस्खल पदे पदे रघुनाथं करे धृत्वा किंचिन्नो वाचभामिनी बालभावं भव मंदं मंदं रुरोधः ते सर्वे लालितामात्रा गाढमालिङ्ग्ययत्नतः एवमानन्दसन्दोहजगदानन्दकारकः मायाबालवपुर्धृत्वा रमयामासदम्पती अधकालेन ते सर्वे कौमारं प्रतिपेदिरे उपनीतावसिष्ठेन सर्वविद्याविशारदाः धनुर्वेदे च निरताः वेदिनः बभूवोर्जगतां नाथा लीलया नररूपिणः लक्ष्मणस्तु सदा राममनुगच्छति सादरं सेव्यसेवकभावेन तधा शत्रुघ्नो भरत तथा रामचापरो निणा प्रभु अश्वाढ़ो वनमिमृगया सलक्ष्मण पित्रे सर्वं न्यदयद प्रादा सुस्ना पितरावभिवाद्य च पौरकार्याणि सर्वाणि करोति विनयान्वितः बन्धुभिस्सहितो नित्यं भुक्त्वा मुनिभिरन्वहं धर्मशास्त्ररहस्यानि शृणो दिव्याकरोति च एवं परात्मामनुजावतारो मनुष्य लोका सर्वं चक्रे विकारी परिणीनो विचार्य कौदी किंचिद यदि श्रीमद्यात्मणे उमहसंवातीय सर्ग ओम